मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं ट्वेण्टि ऐट् कथनम् श्रीगणेशाय नमः मुद्गल उवाच देवाश्च शरणं केचित् कश्यपादीन् समाययुः विह्वलाभयबीदास्ते शशंसु दैत्यचेष्टितं देवाऊचुः मत्सरेण प्रदुष्टेन जिता देवाः सवा सवाः इन्द्रो धृतो महाभाग वयं शरणमागताः रक्षत्वं मुनिशार्दूलत्वं पिता भयविह्वलान् जीवनाशसमा दुःखादिन्द्रं मोचय मत्सराद देवानां वदनं श्रुत्वा वासिष्ठादिसमन्वितः ब्रह्माणं प्रययौ देवैः कश्यपो वंशवृद्धये सत्यलोके समासीनं गत्वा दृष्ट्वा ननाम च स्तुत्वा तं विविधैर्वाक्यायः प्राञ्चलिप्रत्युवाचः कश्यप उवाच मत्सरेण धृतस्वामिनिन्द्रो देववरैः सह देवस्थानपतिर्जातो दैत्यः परमदारुणः देवादैत्या पदे स्वे यथा योग्ये वसन्ति तथा कुरु जगन्नाथत्वं धाधा जगदिर्हिनः कश्यपश्यपच श्रुत्वा देवां चर्षी नथा पिदा महप्रजानाथ हृदयेन विदूयता ब्रह्मोवाच शृणुध्वमुनयो देवा शिवप्राप्त शिवप्राप्तवरोऽसुरः अजेयः सर्वभूतानां देवादीनां विशेषतः न शक्तोखं कदा कर्तुं यथायोग्यं स्वभावतः गच्छामि शरणं विष्णुं भवद्भिः सह पालकम् वैकुण्ठमगमद्ब्रह्म देवैश्च मुनिभिः सह गत्वा विष्णुं नमस्कृत्य स्तु त्वो वाचप्रजापतिः युद्धे इन्द्रो देववरप्रभो किं स्थितोऽसि महाविष्णो त्वं पालक इति ब्रह्मणो वचनं श्रुत्वा विष्णुस्तं प्रत्युवाचः न शक्यते मया धादर्वशं कर्तुं महासुरं शिवस्य वरदानेन मत्तोऽसौ दैत्यपुङ्कवः तस्माच्च शरणं व्यामशङ्करं नात्रसंशयः ब्रह्मादिभिः स्वयं विष्णुकैलासमगमत् शङ्करं प्रणिपत्याः सर्वैर्मुनिगणैः सह विष्णुरुवाच नमस्ते भगवन् शम्भो नमस्ते शूलबाणये नमस्ते जगदाम्नाथ सर्वसाक्षिन् नमोऽस्तुदे नमो नमो महादेवस्रष्टे राजसरूपिणे पात्रे विष्णुस्वरूपाय हन्त्रे रुद्रस्वरूपिणे पञ्चवक्त्रधरायैव योगिने योगदायिने निर्गुणाय निरूपाय ब्रह्मभूताय ते नमः मत्सरेण महादेव पीडितास्ते सुरर्षयः धृत इन्द्रसुराधीशो मर्दयित्वा सुरान् परं भयभीदा वयं तेन शरणं त्वामुपागताः रक्षनो देवदेवेश त्वं श्रेष्ठो देवपालक विष्णोर्वचनमाकर्ण्य शिवश्चिन्तातुरः स्वयम् उवाच तान् देवमुनीन् विष्णो महेश्वरः शिव उवाच तपःसोग्रणदेवेश मया दैत्यो विवर्धितः वरैर्महा दुर्लभैश्च किं करोमि जनार्दन दैत्यो नाशयितुं विष्णो न शक्यः कदाचन विचारं कुरुदेवेश त्वं बुद्धियुत एवहि शिवस्य वचनं श्रुत्वा विष्णुः परमकंपितः उवाच दुःखयुक्तेन हृदयेन सुरेश्वरं विष्णुरुवाच कर्ता त्वमन्यथा कर्ता क्यकर्ता नात्र संशयः विपरीतं त्वयोक्तं चेद्वयं किं करवामहे तव वै सन्निधौ देववसामश्च सदाशिव वयं दैत्यवशा नैव चराम इति मे मतिः वैकुण्ठादिपदं त्यक्त्वा तव सन्निधिमागताः अधुना मत्सरोदैत्य आगमिष्यति तत्र सः वैकुण्ठं सत्यलोकं च गृहीत्वा सुखमेष्यति तव स्थानं न कैलासं भक्तत्वाद्वै वचनं श्रुत्वा शिवो निश्वाससंयुतः स्थितस्तत्रैव दक्षत्वं शृणु मत्सरचेष्टितम् ॐ तत्सदिति श्रीमदान्त्ये श्रीमन श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते मत्सरासुरचेष्टितकथनं नाम अष्टाविंशोऽध्यायः ओ